श्रीमद्भागवत् महापुराणम् एकादशी संस्कन्धः विंशोऽध्यायः साङ्ख्येन सर्वभावानाम् प्रतिलोमानुलोमतः भवाप्ययावनोऽध्यायेन्मनो यावत् प्रसीदति विरक्तस्य पुरुषस्योक्तवेदिनः मनस्य यदि दौरात्म्यम् चिन्तितस्यानुचिन्तया यस्मादिर्भिर्योगपथैरान्वीक्षित्या च विद्यया ममार्चोपासनाभिर्वा नान्ययोग्यम् स्मरेन्मनः यदि कुर्याद्ब्रमादेन योगी कर्म विगर्हितम् योगेनैव दहेदशो नान्यतत्र कदाचन स्वे स्वेधिकारे यानिष्ठाश गुणपरिकीर्तितः कर्मणां जात्यशुद्धानाम् अनेन नियमः कृतः गुणदोषविधानेन शङ्गानां त्याजनेच्छयाम् जातश्रद्धो मत्कथासो न भिन्न सर्वकर्मसु देदुःखात्मकान् कामान् परित्यागेऽपि नीश्वरः ततो भजेतमाम् प्रीतश्रद्धालुजुन्निश्चयः युषुमारस्थितान् कामान् दुःखो दर्कान्सु गर्हयन् प्रोक्तेन भक्तियोगेन भजतो मास कृमुनेः कामाहृदय्या सर्वे मयि हृदि भिद्यते हृदयग्रन्थे सिद्यन्ते सर्वसंशयाः क्षीयन्ते चाश्च कर्माणि मयि दिष्टेऽखिलात्मने तस्मान्मद्भक्तियुक्तस्य योगिनो वैमलात्मनः न ज्ञानं न च वैराग्यम् प्राय श्रेयो भवेदि यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च त यत् योगेन दानधर्मेण श्रेयोभिरीतरैरपि सर्वम् मद्भक्तियोगेन मद्भक्तो लभते जसाम् स्वर्गापुवर्गम् मद्धाम कथञ्चित् यदि वाञ्छति न साधवो धीरा भक्ता श्रीकान्ति नो मम वाञ्छतिपि मया दत्तम् कैवल्यम् अनु अपूर्णर्भवम् नैरपेक्षम् परम् प्राहुर्निसेयसम् अनल्पकम् तस्मान् निराशिषो भक्तिर्निरपेक्षस्य मे भवेत् न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाः साधूनां सवचित्तानां बुद्धे परमुपेयुषाम् एवमेतान्मयादिष्टाननुतिष्ठन्ति मे पथं क्षेमं विन्दन्ति मत्थानां यद्ब्रह्म परमं विदुः इति श्रीमद्भागुते महापुराणे पारहंस्यां शयितायाम् एकादशस्कन्धे विंशोऽध्यायः